ध्याया दावा कबलाभकुन्दनवदी श्रे जोमये नैष्यजि नितावाङ्गर्विलोगिनी मदवदी मदस्मित श्रीमुखे मृतवर्षि मधुरं मधुरं सङ्कीर्तनायामि मधुरिकु अमृताश्वरे Om Mahardeshwar Nishshee okay. Namaha Om Mahardeshwar Nishshee Namaha Om Mahardeshwar Nishshee Namaha Om Mahardeshwar Nishshee Namaha गणाना आं वा गणपतितुं हवामहे कविं कवीनामुपमश्रपत्तमं ज्येष्ठराजब्रह्मणां ब्रह्मणपमानश्रन्धो निवृत्तिसकालनम् ॐ श्रीमा प्रणो देवी सरस्वती टुगेदर्टल् टुगेदर् अदर् वन्स् अदर् त्रीग्राफ़् टुडे वरिबडी रेडि स्टार्टिङ्ग् फ्रम् ओम् भद्रं कर्णेभिः ओके टु त्री ॐ भद्रं कर्णेभिः यामदेवाः भद्रं पच्छीमाक्षभिर्यजत्राः स्थिरैरङ्गै सुष्टुं सूभिः व्यशेमदेवहि स्वस्ति नोभिवाः स्वस्ति न पूषा विश्ववेदाः स्वस्ति न साक्षो अरिष्टनेमिहि स्वस्ति नो बृहत्मृ साधु ॐ शां षं षष्ठे हिन्दगी ॐ स्वमे स्वमे त्वमेव केवस्मि भर्तासेऽसि त्वमेव केवले भर्तासेऽसि त्वमेव सर्वम् फल्वितम् विदी त्वम् साक्षादात्मासि ऋतम् वक्षेऽस्मि सत्यम् वक्षेऽस्मि अवधार अववक्तारम् अवशतारम् अवधाव अव अवानौ अवा अवा अवा जानवशिष्यम् शिष्यम् अवपश्चात्तापादे अव अवो अव दक्षा अवछोता देव अवता देव यः सच्चिदान्त त्वं ज्ञानमयो न सर्वं जगतिनं जगति सर्वं जगति सर्वं जगतिलयं शैष्यतिष्ठति सर्वं जगतिनं जगलं त्व त्वं भूमिरां चत्वारि त्वम् गुणत्रया भीतः त्वम् अवसमाव्रयापीतः त्वम् देहत्रयत्रया भीतः याम् नित्यम् प्रसिद्धयात्मकः िनो ध्यायध्याय नित्यम् त्वं ब्रह्मा ब्रह्मा विष्णस्वृष्टमि ब्रह्म भूर्भुवस्वरो गणादि पूर्वमस्वार्य एतदनन्तरम् अनुस्वारः सर्वकारेन्दुलसितम् सुरसिकम् तारेण एदत्तवमनुस्वरूपम् गगारूर्वरूपम् अगारो मध्यमरूपारूपम् अनुस्वानस्वापश्च बिन्दुरुत्तररूपामुपम् नाधानम् स्वगम् हि समाधिः तैषा गणेश निदृ गायत्री छन्दः जदः गणपति हृदयता ॐ गं गणपदीपतये नमः एकाय महे महेवय धीमहि कन्नो नो दोदो िणम् <hye> रदवरव पुष्टै पूजितम् मरणमुच्युतम् कृते पुरसाफलम् य निगि रां वरः नमो व्रह्मणतै नदयि नमणपदये नमस्ते नम्बोराय नैव परदोर् परदेवै नमः That's what we learned last time, so let's start with the next paragraph, 11th one, 11, and then I say एषं योधिते <laughs> <laughs> <laughs> <laughs> स ब्रह्म भूयाय कल्पते स ब्रह्म भूया भूयाय कल्पते सूयाय कल्पते ओके लैन् ओके वन्पीट् एतदर्वशीर्षं योधीते स ब्रह्म भूयाय एकदथ वशि संयोथी ते स ब्रह्मभूयाय कल्पते एत एकदथ वशीषं योथीते सब्द ब्रह्म भूयाय कल्पते स सर्वविघ्नेर्न बाध्यते सर्वते स सर्वते स सर्वत्र सुखमेधते स सर्वत्र सुखमेघते स सर्व सुखमेधते स पञ्चमहा सायमधीयानो दिवसकृतम् पापम् नाशयति प्राधरधियानो रात्रिकृतम् पापम् नाशयति नाशयति सायम् राधः प्रयुञ्जानो पावो पावो भवदे Sāyam, Sāyam Prādhattrayam Jāno Pāpū Pāpū Bhavati. Sāyam, Sāyam Prādhattrayam Jāno Pāpū Pāpū Bhavati. Sarvatrādhīyāno Pavigno Bhavati. Sarvatrādhīyāno Pavik. सर्वत्र धर्मार्थकाममोक्षं च विन्दते धर्मार्कामोक्षं च विन्दति धर्मार्मार्थकाममोक्षं च विन्दति Is that difficult, any of this uh, sentence so far? Is it difficult? Then we can go over that sentence one more time, okay? ओके सुफे मोहाति सभावियान् भवति सपाबीयान् भवति ति सपातीयान् भवति मोहा सपातीयान् भवति यो यदि मोहाति सपादीयान् भवति सहस्रावर्तनाद्य तमनेन साधयेत् सहस्रावर्तनाद्यं यम् काममधीते साधयेत् साधयेत्ावनामधि साधयेत् इ ओके वन् टु त्री एतदर्वशीर्षं योधिते स ब्रह्म भूयाय कल्पते सुखमेधते स पञ्चमहापापायते सायम् प्रायुञ्जा सर्वत्रादीयानोपविघ्नो भवति धर्मार्थकाममोक्षं इदमधर्वेदम् यो नि तहस्रावर्स्टनाध्यम्यम्काम्यम्धिधे तंधमने नधाधयेत्षा So who wants to try it on their own? It's mostly easy because you just have to read what's written there, not that bit of a difficulty, right? Yeah. I can go. Okay, go ahead. Okay. एततःर्वशीर्षम् योधीते स ब्रह्मभूयाय कल्पते स सर्वविघ्नैर्न बाध्यते स सर्वत्र सुखमेधते स पञ्चमहापापात्प्रमुच्यते सायमधीयानो दिवस्कृतम् पापम् नाशयति सायम् प्रयुन्नानो भवति सर्वत्राधीयानोपविघ्नो भवति धर्मार्थकाममोक्षम् च विन्दति इदमथर्वशीर्षमशिष्यायन देयम् यो यदि मोहाद्दास्यति स पापीयान् भवति सहस्रावर्तनाध्यं यम् काममधीते तम् तमनेन साधयेत् एतद सर्वशीर्षं यो धीते स ब्रह्मभूयाय कल्पते सर्वविघ्नै स सर्वविघ्नैर्नवाद्यते स सर्वत्र सुखमेधते स पञ्चमहापापात् प्रमुच्यते पञ्चमहापापा प्रमुच्यते स प्रमुच्यते सायमधीयानो दिवसकृतम् पापम् नाशयति प्रातरधीयानो रात्रिकृतम् पापम् नाशयति सायम् प्रातः प्रयुञ्जानो पापो पापो भवति सर्वत्राधीयानोपविघ्नो भवति धर्मार्थकाममोक्षम् च विन्दति इदमतर्वशीषमशिष्यायन देयम् यो यदि मोहास्यति स पापीयान् भवति सहस्रावर्तनाद्यं यम् कामधीते तं तमनेन साध्ययेत् साधये hari i i wrote it down but i i did miss one one sentence of it so i don't have that sarvatra that starting with sarvatra i have to go back to my you know thing okay so can, you say can, till whatever you have written down not problem okay okay now i have to you have to correct it a so it's going to be a little bit weird ega da एकदथर्वशीर्ष एषम् एतद् अधर्वशीर्षम् एतदथर्वशीर्षम् एकदथर्वशीर्षं योधीरे स ब्रह्म भूयाय कल्पते स सर्वविघ्ने ऋक्नबाध्यते स सर्वविघ्ने एर्न बाध्यते स सर्वविघ्ने एर्न बाध्यते स्वत सुखमेधते स सर्वत्र सुखमे सर्वत्र ओके स सर्वत्र सुखमेधते सपञ्चमहापात्रमुच्यते सपञ्चमहापात्रमुच्यते सायमधीयानो दिवसकृतं पापं नाशयति प्रातरधीयानो रात्रिकृतं पापं नाशयति सायं प्रात prayum jano papa papo papo bhavati dak descendants i don't have it so I'm, I'm sarvatra going to keep it. dhiyano sarvatra dhiyano avighno bhavati savighno bhavati i will go back and Pavigno. write it down sarvatra adiyana avighna uh -huh. bhavati that's what it says everywhere if you're studying this thing Okay, no, but I didn't, no, I, no. I, I, I didn't write it down. You know, I write it down so that I can make corrections. I need okay. to have a paper copy. That's my okay. problem. <laughs> so I wrote it down, but I just skipped. I didn't write that sentence, so somehow okay. I missed it. No problem. No thar problem. Tharmarta kama mocham javim dati idham adharva shishama shishyaya nadayam nadayam, -nad -nadayam देयम् इदमधर्वशीर्षमशिष्याय न देयम् यो यदि मोहात् दास्यति स पापीयान् भवति सहस्रावर्तनाद्यं विद्यं काममधीते तं तमनेन साधयेत् या गुड सॉरी बॉडी जस्ट नो नो नो प्रॉब्लम थिंक इट्स ओके वी आर रेडी टू लर्न हियर राइट सो इट्स ओके टू मेक मिस्टेक और एनीथिंग ऑन फॉरवर्ड लेट्स ट्राई द नेक्स्ट पैराग्राफ गणपतिमभिषिञ्चति अनेन गणपतिमपि अनेन गणपतिमभिषिञ्चति भवति अनेन गणपतिमभिषिञ्चति स वा गणपतिमभि मनश्नन् जपति चतुर्थ्या मनश्नन् जपति स विद्यावान् भवति चतुर्णं जपति भवति चतुर् चतुर् मनस्नति भवति इत्यथावनवाक्यम् Brahmā dyāvaraṇam vidyāna bhivedi kadājane di. Brahmā dyāvaraṇam vidyāna bhivedi kadājane di. गणपति भवति चतुर्थ्या मनश्नन् जपति विद्यावान् भवति चे ओके वन् मोर् टैल् टुगेदर् ओके वन् टु त्रि अनेन गणपतिमभिञ्च वाग्नि भवति चतुर्थ्यापति भवति कदा जने वेरिबडि ओके वि I can go. Okay, go Okay, ahead. अनेन गणपतिमपि bhavati स वाक्मी भवति चातुर्थ्या मनस्नन जपति स bhavati भवति इथ इत्यथर्वणवाक्यं ब्रह्मात्यावरणं वि कदा चनेति अनेन गणपतिमभिषिञ्चति स वाग्मी भवति चतुर्थ्यामनश्नम् जपति स विद्यावान् भवति इत्यर्थवण नित्यधर्वणवाक्यम् विद्ध्यान विद्ध्यान okay. Okay, can go. Okay. अनेन गणपतिमभिषिञ्चति स वाग्मी भवति चतुर्थ्या मनश्नन् जपति स विद्यावान् भवति थर्व ब्रह्माध्यावरणेति कदाचिग्राङ्गुरे ङ्कुरैर्यजति दूर्वाङ्कुरैर्यजति दूर्वाग्रात् सम्भडीस् प्रें गृहे यो दूर्वाङ्कुरैर्यजति सैवैश्रवणोपमो भवति यो दुर्वाङ्कुरैर्वजति सैष्णवैपयोपमो भवति वैश्रवणोपमो भवति योलाजेर्यजति त यशोवान् भवति ो वा सयशोवान् भवति सयोशोवान् भवति समेधावान् भवति समेधा समेधावान् भवति समेधावान् भवति यो मोदकसहस्रेण यजति यो यो मोदगहस्रेण यजति यो मोदहस्रेण यजति स वाञ्छित यो मोदकसहस्रेण यजति स वाञ्छित फलमवाप्नोति स वां्छित फलमवाप्नोति स वाति साज्य समेद्भिर्यति यः साज समिद्भिः यजति समेद्भिर्यजति समिद्भिर्यजति ओके समेद्भिर्यजति महाप्राणाज समिर् यजति यजदि यजदि समिभिर् यजति स सर्वं लभते स सर्वं लभते स सर्वं स सर्वते सर्वं लभते स लभते य साजसमिभिर्यति स सर्वं लभते स सर्वं लभते yaj satya samith yajati sarvam labhate y satya samith yajati sarvam labhate tvam labhate okay let to do this two times together okay then we'll go to the next one so ready this targa will do two times and then will be individually 1 2 3 दूर्वान यो दूर्वाङ्र्यजति वै श्रवणोपमो भवति यो भवति समेधावान् भवति भवति व्यो मोदगतः यजति भवाञ्चित्रप्नोति यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति यो लाजैर्यजति स यशोवान् भवति समेधावान् भवति यो मोदक मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति यः साजसमिभिर्यजति स्व ससर्वं लभते स सर्वं लभते वैश्रवणोमपो भवति वैश्रवण वैश्रवणोपमो भवति यो आजैर्यजति स यशोवान् भवति स भवति यो मोदक मोदकसहस्रेण यस्मिद्भिर्यजति स ससर्वं लभते ससर्वं सर्वम् लभते Good. ुरै यो दूर्वां यो दूर्वाङ्कुरैर् यजति स वैश्रवणोपमो भवति यो लालैर्यजति स यो स यशो स यशोवान् भवति स यशोवान् भवति समेधावान् यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति समिति स सर्वं लभते स सर्वं लभते चस्वी भवति सूर्यवर्चस्वी भवति ी अष्टौ सम्यूर्यवर्चस्वी भवति अष्टौ ब्राह्मणान् समस््राहयित्वा ी भवतिधौ सूर्यग्रहे महान् अधौ सूर्यग्रहे महानाद्यां प्रतिमासन्निधौ निधौ सूर्यगृहे मानत्वां प्रतिमासन्निधौ सूर्यग्रहे गृहे महानत्वां सिद्धमन्त्रो भवति सूर्यग्रहे महानद्याम् प्रतिमासन्निधौ वा सिद्धमन्त्रो भवति सूर्यग्रहे महानं प्रतिमा सन्निधौ वा जमन्त्रो भवति महाविज्ञाद् प्रमुच्यते हाविदोषा <mahavikna> महादोषामुच्यते <mahavikna> <mahadoshan> यात् प्रमुच्यते स सर्वति स सर्वति भवति सेद् भवति त्युपनिषत् इत्युपनिषत् <brain> Okay, so let us uh, try this paragraph two times together and then we'll do it individually, okay? Everybody is okay with this paragraph? Yeah. Yes. Okay. Ready? One, two, three. Ashto brahmanam samyagraha yitva surya varchati bhavati मन्द्रो भवति भवति महाविद्याविद्याते महाभृच्छा प्रभुच्यते ओके <Ses> पर अष्टौ ब्राह्मणान् सम्यग्राहयित्वा सूर्यवर्चस्वी भवति सूर्यग्रहे महानद्याम् सूर्य प्रतिमा सन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति महाविघ्ना आत्प्रमुच्यते महादोषा आप्रमुच्यते महाप्रत्यवाया आ प्रमुच्यते स सर्वविद् भवति स सर्वविद् भवति य एवं वेदा इत्युपनिषत् ॐ शान्ति शान्ति शान्तिः Shishilaji, you want to go next? Okay. okay. Ashtau Brahmanat Samagraha Brahmana. Ittva. Ashtau Brahmanat, brahmanat, brahmanat Samagraha samyag. Ittva. Samyagraha, Samyagraha Ittva. Okay. Yeah. Ashtau Brahmanat Samagraha Ittva Surya. One second. One second. Sam... Ashtau Brahmanat Samyagraha Ittva. graha yitva ashtav brahmanan sammaga graha yitva samyaga samyaga samyaga samyag. samyag. ok samyaga uh. okay. ashtav brahmanan samyaga brahmanan samyaga ी भवति सूर्यवर्चस्वी भवति अष्टौ ब्राह्मणान् सम्यक् ग्राहयित्वा सूर्यवर्चस्वी भवति सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा च्यक्त्वा भवति महाविघ्ना आत्रमुच्यते महादोषा आप्रमुच्यते महाप्रत्यवाया आप्रमुच्यते स सर्ववित्फवति स सर्व स सर्ववित्फवति स एवं वेदा इत्युपनिषत् ॐ शान्ति शान्ति शान्तिः अष्टो ब्राह्मणान् सम्यग्राहयित्वा सूर्यवर्चस्वी भवति सूर्यग्रहे महानद्यां प्रतिमा सन्निधौ वा चत्वा सिद्धमन्त्रो भवति महाविघ्ना आप्रमुच्यते महादोषा आप्रमुच्यते महाप्रत्यवाया आप्रमुच्यते भवति सर्वं वेदुड् विष उपनिषत् ऐ ड् नेक्स्ट् इस्ण्डे आफ़् दैट् yes so mm -hmm. there is one more paragraph i wrote and i don't know whether it is with that or not om badrang karne bhi that is in the, in the beginning it is there right so oh, okay okay so the next one is actually subhupanishad it comes the om badrang karne bhi is a normal shanti mandir for lot of things okay so okay so we don't have to so that we don't okay. have that we already said in the beginning om badram karne vishunyam okay. deva okay. om badram pashyate okay. yeah. yeah. so that is in the beginning we said so we don't have to say that at the end <laughs> it is it shanti shanti that Shana. okay okay okay so next week i'm thinking that we'll probably start with this because then uh, before we are finished before uh, uh ganesh chaturthi and then we can do rudram and chamagam so that way uh, we will be done right so uh, what do you guys think yes the task is for whatever we learned with ganapati adarsh shirsha and then the other one is normal that we going to do any anyway. so that way um, we can we uh, complete okay okay that sounds good now how did i just wanted to tell you you know the book if you can spare it give it to osha i will be okay because yeah yeah the whole whole one book so the that book has with, with uh, swara okay i have one yeah. book but it doesn't have any swara so it doesn't tell you exactly where up or down or something i don't think no yeah any more meaning but it does not have the swara this one but is but even if I, yeah it has the swaras there but i have the i have the copy that you gave it has it, has, it is a little bit better the vartajudram okay. but you know, okay. the lagunyasam i don't i didn't take take the class from you so that sir i have a problem that's what i was okay. saying yeah, anyway, yeah, then you thank you you make it easy here okay then compare all these things yeah but the thing is you know the pronunciation when you when you say it it you know it's easier to learn yes yes i agree that's that's my problem but that's okay as as we go along i will catch up yeah So the thing is you know annoying uh, language which has all the letters they are different is good because tamil would you would have a very different problem because they only have uh, two letters instead of five so <laughs> that is true but so, still i don't have any knowledge of sanskrit that is my problem no no that's not the thing the thing is like a lot of the people when we learned uh, our language malayalam also we didn't uh, actually emphasize pronouncing each letter correctly that's what happened yeah, yeah. yeah so they just said chacha chachachha okay you don't know this is a cha and a cha this is a ja and a jha and a nya sound so they didn't uh, tell us that how it has to be done so we uh, would say chacha jha nya okay so the thing is all of them which just must together to form one sound <laughs> yeah they're spelled or sounds but that the, all these letters are there with the right pronunciation also it's not uh, most languages that yeah, no, that's, that's where, yeah that's where i have a problem you know that's when i appreciate your you know teaching yeah actually i learned uh, the all the letters better when i learned sanskrit than, uh, than otherwise so. yeah that's why you you can do it better yeah Some people anyway, have taught very well, okay? I know that some people that, uh, grilled, uh, grilled on these things. I think if there is one, uh, I think Dr. Sridevi or something, if you look at it, she has uh, uh, done some uh, WhatsApp video or something where she has uh, gone through this with the Malayalamators. Mm -hmm. I didn't see it, but if I see it, I'll send it to you, okay? So no, that's okay. That, how do you, you teach her yeah. teaching, how they should teach kind of things? no i only have a problem with laghonayasam i think that rudram I, i i think that okay. i am okay with it yeah because you have heard it and you learned right so no problem yeah okay then we'll stop here we'll yeah. do trilogas samastha and then we'll stop here okay mmh -hmm. लोकाः भवन्तु लोकाः लोकाः नो भवन्तु भवन्तु लोकाःकाः नो भवन्तु भवन्तु ॐ शान्ति ॐ श्रीगुरभ्यो नमः